नारायणीयं दशकं फिफ्टि मीटर् हरिणि तरलमधुकृद्वृन्दे वृन्दावनेधमनोहरे पशुपशिशुभिः साकं पत्सानुपालनलोलुपः हलधरसखो देवश्रीमन्विचेरिध धारयन् गवलमुरलीवेत्रं नेत्राभिरामतनुद्युदिः विहिदजगदीरक्षं लक्ष्मीकराम्बुजलालितं ददति चरणद्वन्द्वं वृन्दावने त्वयि पावने किमिवन बभौ सम्बत्सम्भूरिदं तरुवल्लरी सलिलधरणी गोत्रक्षेत्रादिगं कमलापदे विलसदुलपे कान्ता रान्धे समीरणशीतले विपुलयमुनातीरे गोवर्धनाचलमूर्धसु ललितमुरलीनादः सञ्चारयन् खलु वात्सकम् क्वचनदिवसे दैत्यं वत्सा कृतिं त्वमुदैक्षधाः रभसविलः सत्पुच्छम् विलोकयन् किमपि वलितस्कन्दं रन्ध्रप्रतीक्षमुदीक्षितम् प्रमथचरणे बिभ्र बिभ्रामयन् मुहुरुच्चकैः कुहजनमहावृक्षे चिक्षे पिधक्षदजीवितम् निपतदिमहादैत्ये जात्या दुरात्मनि तत्क्षणम् निपतनजवक्षुण्णक्षोणीरुहक्षदपानने दिवि परिमिलद्वृन्दा वृन्दारखा कुसुमोकरैः शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे सुरभिलतमामूर्ध्वन्यूर्ध्वं कुतः कुसुमावली निपतति तवेत्युक्तो बालैः सहेलमुदैरयः चडिति धनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलाद कुसुमनिगरसोयं नूनं समेदिशनैरिति क्वचनदिवसे भूयो भूयस्तरे परुषातपे तपनतनया पादः पादुं गदा भवदादयः चलिद गरुदं प्रेक्षा मासुर्बगं खलु विस्मृदं क्षिदिधर गरुच्छेदे कैलासशैलमिवा परम् पिबति सलिलं गोपव्रादे भवन्तमभिद्रुदः सकिलन्निगिलन्नग्निप्रख्यं पुनर्दृदमुद्वमन् तलयितुमकात्रोट्या कोट्या तदादु भवान् विभो कलजनभिदा चुञ्चुश्चञ्चू प्रगृह्य ददारतं सपदि सहजां सन्द्रष्टुं वा मृदां खलु पूतनामनुजमखमप्यग्रे गत्वा प्रदीक्षितुमेव वा शमननिलयं यादे तस्मिन् बगे सुमनो गणे किरति सुमनो वृन्दं वृन्दावनात् गृहमय्यधाः ललितमुरली नादं दूरान्निशम्य वधू जनैस्त्वरिदमुपगम्याराधारूढ मोदमुदीक्षितः जनितजननी नन्दानन्दस्समीरणमन्दिरप्रथिदवसदे शौरे दूरी ममामयान् सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द